हरि ओम् श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धे सप्तदशोऽध्यायः व्यास उवाच इत्याकर्ण्यवच तस्य मुने तत्रावनेपति मन्त्रिवृद्धम् समाहूय पप्रच्छितः किं कर्तव्यं सुबुद्धेत्रयमयाध्येव सुव्रत वरान्नयामि तां कामम् स पुत्रान् च सुभाषिणीम् रिपु अल्पोऽपि नोपेक्ष सर्वथा शुभमिच्छदा राज यक्ष्मे वृद्धो मूर्त्यवे परिकल्पयेत् नात्रम् सैन्यम् न योद्धाति व्यो मामत्र निवारयेत् गृहीत्वा हन्मितम् तत्र दौवित्रस्य रिपम् किल निष्कण्डकम् भवेद् राज्यम् पते सुदर्शने नूनम् निर्भयोसौ भवेदिति प्रधान उवाच साहसं न हि कर्तव्यम्पदम् राजन्मुनिर्वच विश्वामित्रस्य पुरागाधी सुत श्रीमान् विश्वामित्रोऽतिविश्रुतः विचरन् च नृप श्रेष्ठो वसिष्ठाश्रममध्यगात् नमस्कृत्य च तं ताम् राजा प्रतापवान् उपविष्टो नृपष्टो मुनि न दत्तविच्चरः निमन्त्रितो वसिष्ठेन भोजनाये महात्मना स्वसैन्यच्चो राजा गादिपुत्रो महायशा नन्दिन्या साधितम् सर्वम् भक्ष्यभोज्यादिकम् चेत् भूत्वा राजा स्वसैन्य च वाञ्छितम् तत्र तञ्च नन्दिन्या परिज्ञायस्य पार्थिवः यया चे नन्दिनीं राजा वसिष्ठं मुनिषत्तमं विश्वामित्रोवाच मुने धेनुः सहस्रं ते घटोनीनां देहि मे धेनुं प्रार्थयामि परन्तच होमधेनोयं राजन्न ददामिकरञ्जन सहस्रं चापि धेनूनां तवेदं तवसिष्ठतु विश्वामित्रोवाच अयुतम् वाथलक्ष्यम् वा ददाम्बे मनसे देहि मे नन्दिनीम् साधु ग्रहीष्यामि बलादथ वसिष्ठवाच कर्मपते बलाद्द यथा रुचिः नाहं ददामि ते राजन् स्वेच्छया नन्दिनीम् गृहात् तच्छ्रुत्वा नृपतिर्भृत्यान् आदिदेश मा बलान् नयध्वम् नन्दिनीम् धेनुम् बलदर्प सुसंस्थिताः ते भृत्या च गृहस्तां तु हठाद्वाक्रम्य यन्त्रिताम् पीपमाना मुनिम् प्राह सुरभिः सालोचन मुने त्यजसि मां कस्मात् कर्षयन्ति सुयन्त्रिताम् मुनिताम् प्रत्युवाचेदं त्यजे नाहन्तु दुग्धदे बला नयति राजा सु पूजितोऽद्य मया शुभे किं करोमि न चेच्छामि त्यक्तुम् त्वाम् मनसा किल इत्युक्ता मुनिनाथेन क्रोधयुक्ता बभूवः सम्भारवं चकाराशु क्रूरशब्दम् सुदारुणम् उद्गता तत्र देहातु दैत्या घोरतरास्तदा सायुधा तिष्ठतिष्ठेति ब्रुवन्त कवचावृता सैन्यं सर्वं हतं तस्तु नन्दिनी प्रतिमोचिता एकाकी निर्गता राजा विश्वामित्रोऽति दुःखितः सन्तपापो दि दी दीनात्मा निन्दन् चात्रावलम्भेत् ब्रह्म दुराराध्यम् अत्राय तपसि संस्थितः सप्ता बहूनि वर्षाणि तपघोरम् वने रुचि त्वं प्राप गाधय त्यक्त्वा क्षात्रं विधिम् पुनः तस्मात् तम् राजेन्द्र मा कुता वैरमद्भुतम् कुलनाशकरं नूनम् तापसहितसंयुगम् मुनिवर्यं व्रजाद्यत्वं समाश्वास्य तपो निधिं सुदर्शनोऽपि राजेन्द्र निर्धनं किं ते करिष्यति नृपायितम् उथा ते वैर्भावोऽयम् अनाथे दुर्बले शिशो दया सर्वत्र कर्तव्या दैवाधीनमिदं जगत् ईर्षया किं पश्य यद्भाव्यं तद् वज्रं तृणायते राजन् दैवयोगान् समुचये तृणं वज्रायते क्वापि समये दैवयोगतः शशको हन्ति शादूलम् शको वै तथाग्रजम् सहसंन् कुरुम्भे वचनमिदम् उवाच तच्छ्रुत्वा वचनं तस्य युधाज्य नृपसत्तमय प्रणम्य तं मूर्ना जगाम्भ स्वपुरं मनोरमापि स्वस्थाभूत् आश्रमे तत्र संस्थिता पालयामास पुत्रं तं सुदर्शनं व्रतं दिने दिने कुमारो जगामोपचयम् तथा मुनिबालक्रीडन् निर्वह्य सर्वतै श्व एकस्मिन् समये तत्र विजल्लं समुपागतं क्लीभेति मनिपुत्र तम् आमन्त्र सुदर्शनस्तु तत् श्रुत्वायुतं तच्च प्रोवाच्चै कामराजाख्यं गृहीतं मनसा तदा ज बालकोत्यर्थं धृत्वा चेतसि सादरम् भावि योगान् महाराजय कामराजाख्यमद्भुतं स्वभावेनैव नृत्येन बालकेन वै सदा सौ पञ्चमे वर्षे प्राप्य पन्मन्त्रं मनोत्तमं च ध्यान विवर्जितं प्रपजं प्रजपन् मनसा नित्यं क्रीडत्यपि स्वपि विस्मार न तं मन्त्रं नारमिति स्वयं वर्षे च एकादशे प्राप्ते कुमारो मुनिना चोपनीतोथ वेदमध्यापितस्तथा कदाचित् सोऽपि प्रत्यक्षम् देवी रूपम् ददर्शय रक्ताम्बरं रक्तवर्णं रक्तसर्वाङ्गभूषणम् गरुडे वाहने संस्थाम् वैष्णवीम् शक्तिमध्वताम् दृष्ट्वा प्रसन्नवदन स बभूव नृपात्मज वने तस्मिन् स्थिरसोऽध सर्वविद्या सत्त्ववित् मातरम् सेवमानस्तु नदीतटे शरासनञ्च सम्प्राप्तम् विशीखाच च शिलासितः सोडीरे कवचम् तस्मै दत्तम् चाम्बिकया वने एतस्मिन् समये पुत्री काशीराजस्य सुप्रिया नाम्ना कलादिव्या दिव्या सर्वलक्षणसंयुता शुश्राव नृपपपुत्रम् तं मनस्थञ्च सुदर्शनम् सर्वलक्षणसम्पन्नम् शूरम् कामम् जना मुखा श्रुत्वा सकमे मनसा तम् वै वरम् वरयितुम् स्वप्ने तस्या समागम्य जगन् दम्बानि चन्तरे उवाच वदनम् चेदम् समाश्वास्य वरं वरम् वरय सुश्रोणि मम भक्त सुदर्शन सर्वकामापदर्शे तु वचनान् मम भामिनि एवम् शशिकला दृष्ट्वा स्वप्ने रूपम् मनोहरम् अम्बाया वचनम् स्मृत्वा जमानि उत्थिता सा मुदा युक्ता पृष्टा मात्रा पुनः पुनः प्रमवदे कारणं बाला नो वा चास्त्री चासी तृपान्विता जहासे मुदपापन्ना मृत्वा स्वप्नं मुहु मुहुः सखीं प्रहे तदान्यां वै स्वप्नवृत्तं सुवितरं कदाचित् स्वाविहारार्थम् अवापोपवनम् शुभम् सखीयुक्ता विशालाक्षि चम्पकै उपशोभितम् पुष्पाणि चिन्वती चम्पकाधस्थिताबला अपश्यद् ब्राह्मणा मार्गे आगच्छन्तम् तरान्वितम् तम्प्रणम्यं श्यामा भवाचे मधुरं वच कुतो देशान् कृतम् आगमनम् तया विवाच भरद्वाजाश्रमाद्बाले नूनम् वागमनम् सम् वै कार्ययोगेन किं पृच्छसि वदस् मै शशिकला उवाच तत्राश्रमे महाभाग्यवर्णनीयं लोकादिकं विशेषेण शिक्षणीयतमम् गिरय भ्रमण उवाच ध्रुवसन्धि सुीमान् अस्ति सुदर्शनो नृप यथार्थ वर्तते पुरुषोत्तम तस्य लोचनमन्त्यन्तम् निष्फलम् प्रतिभाति मे येन दृष्टो न वा कुमारस्तु सुदर्शन एकत्र निहिता दात्रा गुणा सर्वेषु सूक्षुणा गुणानामा द्रष्टुम् मन्ये तेनैव कौतुकात् तव योग्य कुमारोसु भर्ता भावितुमर्हति यो गो यो गोयम् वितोऽसीत् मणि काञ्चन इति श्रीमद्देवी भागवते महापुराणे अष्टादश सहस्यां संहितायां तृतीयस्कन्धे विश्वामित्रैकस्तोत्रं राम राजपुत्रस्य काम बीजप्राप्तिवर्णनं नाम